मुद्गलपुराणं खण्डं फैव् लम्बोदरचरितम् अध्यायं तर्टिवन् तुलसीवर्जनकारणं श्रीगणेशाय नमः दक्ष उवाच तुलसीवर्जिता पूजा कर्तव्या कथितं त्वया किमर्थं पावनी साधु दोषयुक्ता बभूवः तुलस्या किं कृतं विप्र गणेशानस्य विप्रियं येन रुष्ठो मरेशानस्तां तत्याज यशस्विनीं मुद्गल उवाच धर्मध्वजो महीपालो बभूवे धर्मसंयुतः दादा मान्यो विशेषेण सुज्ञैः सर्वगुणान्वितः तस्य पुत्री बभूवासौ रूपलावण्यसंयुधा न सदृशी कुत्र वर्तते कामिनी विधे वृन्दानाम्नी च विख्यादा प्रणम्य पितरं कदा जगाद जगादभावगम्भीरा चतुरा सुवयोयुधा वृन्दोवाच तादविष्णुं परित्यज्य वृणोम्यन्यं न निश्चितं वरं तदर्थमेवं माम् देहि तस्मै महामदे धर्मध्वज उवाच विष्णोर्देववरसाक्षाद् भगवान् विश्वभावनः स कथं चत्वया लभ्यो वरो लक्ष्मीपदि सुते मानुषेषु वरं पुत्रि वरयस्व हृदि स्थितं नरा स वै साक्षाद्भगवान् भगधारकः एवं नानाविधायर्भावाैर्बोधिता न बुबोधसा तदर्थं मन्द्रराज्यं सङ्गृह्य विष्णोर्वनं ययौ ध्यात्वा च दुर्भुजं विष्णुं निराहारपरायणा तताप तप उग्रं सापदिं विष्णुमभीप्सिदम् तीर्थेषु माधवं दृष्ट्वा तेषु क्षेत्रेषु मानद तपस्ततापवृन्दोग्रं नानामार्गपरायणा शुष्कपत्राणि वायुंसा जलं मूलं फलं तथा भुक्त्वा सन्तोषयामास विष्णुं देववरं विधे वर्षाणि लक्षसङ्ख्यानि गदानि तपसो बलाद् राजपुत्र्याश्च वृन्दायान तुतोष जनार्दनः अतीवतपसा तस्या अन्तर्ज्ञानं बभूवः आत्माकारं जगत्सर्वमपश्यद्बोधसंयुधा कदा विघ्नेश्वरं वृन्दा ददर्श नियमे रदं संभूज्य गणनाथं वै हृदिध्यानपरायणं तं दृष्ट्वा कुञ्जरास्यं सा शिवपुत्रं नृपात्मजा भागीरथी सन्निधिस्थं विस्मिता प्रजापदे गणेशार्थं समालोक्य मोहिता भूत् स्वचेतसि अहो गणेश्वरसाक्षात् ब्रह्मणां नायक अस्य कलांशसम्भूता शिवविष्णुवादयोपरि पूर्णभावात्मकः साक्षाद्गणेशो नात्र संशयः शिवेन तपस्सोऽग्रेणाराधितो गणनायकः पुत्रो भोद्योगशान्तिस्थो भक्तभक्तिपदप्रदः केलत्यात्मानमाभज्य चतुर्धानन्यभावतः अयं विष्णुस्तथा शम्भुशक्रिसूर्यो न संशयः पूर्णभावमविज्ञायाहं विष्णुपरमाभवम् अधुना तं समालोक्य बोधयुक्ता न संशयः तपः प्रभाव प्रभावसामर्थ्याध्वृणोमि गणनायकं व्यभिचारो नमे न मे भावी विष्णुरूपोयमञ्चसा एवं विचार्य विघ्नेशमाय यनसंस्थितं मुद्युक्रा वृन्दातं प्रत्युवाचः वृन्दो वाच त्वं साक्षाद्गणराजश्च तपःसाराधितो भवान् शिवपुत्रत्वमापह्नक्तिं ध्यायसि वदस्व मां कुलदैवतरूपस्थं सर्वसिद्धिप्रदायकं गणेश्वरं समास्ताप्य पूजयसेऽप्यहो गणेश्वरो विशेषेण स्वयं ध्यायसि प्रभो अहो चित्रं मया दृष्टं गणेशो गणनायकं भजते नन्यभावस्थशिवपुत्रत्वकारणाद न त्वं शिवसुधस्वामिन्नदे विघ्नेश्वरकदा कुलदेवस्तथाभिध्यायसि किं गणपं प्रभो तव स्मरणमात्रेण ब्रह्मभूता भवन्ति ते नरा योगिनो वेदकादयः स्वयं शान्तिप्रदाता त्वं ध्यायसि गणेश्वरम् गणेश्वराशुवद मां वाक्यं सगुणनिर्गुण कामबाणार्दिदासादं वृन्दानाप्रकारदः बोधयामस विघ्नेशो ध्यानस्थो न बुबोधतां ततः स जलबिन्दुं तथाभिध्यानसंस्थो नालोकयत्तां गजाननः जखानमोहसंयुक्ताङ्गुल्या तं सा तदो सकृत ध्यानं त्यक्त्वा गणाधीशस्तामपश्यत्पुरःस्थितां गणेशाय नम इति मन्त्रमुच्चार्य विघ्नपः जगादतां सकामां स निष्कामो गणभेरतः श्रीमहागणपतिरुवाच कासित्वं वदमाधर्मां चापल्यगुणसंयुधे ध्यानभङ्गो न कर्तव्यः साधुभिश्च कदाचन गणेशकर्मसंस्थं तम् नरं यश्च नराधमः पृच्छदे बोधयदि वासवै नरकगो भवेद ध्यानभङ्गस्य दोषस्ते मास्तु बाले सुलक्षणे मा कुरुष्व पुनस्त्वं च कर्म चापल्यसंयुधा बाले वद मां निष्कामं गणपे संस्थं गच्छ वा यत्र ते रुचिः वृन्दोवाच धर्मध्वजस्य पुत्री मां विद्धि नानातपोयुधां वरो मम भवस्वामिन् भर्तात्वं त्वं सर्वनायक सर्वासां त्वं विशेषेण भर्तास्यत्र न संशयः तथापि मां भजस्वत्वं भजमानां गजानन तस्यास्तद्वचनं श्रुत्वा प्रहस्य गणनायकः उवाच कामबाणाैस्तामर्दितां शान्दिधारकः का श्रीमहागणपतिरुवाच नाहं वृणोमि धर्मज्ञे स्त्रियं मोहयुधां कदा तपसा त्वं सकामं पुरुषं पश्य सकामात्वं नृपात्मजे अहं गणेश्वरस्यैव दासो देवं भजामि गृणोमि नैव निष्कामः सकामां देवे निश्चितं शान्तिस्ता मे भवेत्पत्नी गच्छादो यत्र देत्समः तस्य तद्वचनं श्रुत्वा पुनः सात्तमुवाचः अहं शान्तिसमायुक्ता मां दयानिधे तिरस्कृता गणेशेन निर्लज्जे गच्छ पुंचलि तथापि तं कढाद्देवी चालिलिङ्गसुविह्वला अङ्गुशं गणनाथस्याकृष्यतं काममोहिता नग्नं कर्तुं समुद्युक्ता क्रुद्धस्तां स शशापः दैत्यग्रस्ता सुदुर्बुद्धे भविष्यसि न संशयः असुरीव च मां दुष्टे कठसंयुधा मूठेव मां समाकृष्य नग्नं कर्तुं समुद्यता अधो वृक्षस्वरूपा त्वं मूठयो नौपदिक्ष्यसि गणेशवचनं श्रुत्वा दारुणं भयसंयुता त्यक्त्वा तं कम्पमानाङ्गी ननाम रुददी उवाच तं गणाधीशं मां क्षमस्वमहागसां न योग्यासं गणाधीश तव वामाङ्गके कदा कम्बन्दीं रुदतीं वीक्ष्य दयायुक्तो गजाननः जगादतां प्रजानाथ परां ज्ञात्वा तपोयुधां श्रीमहागणपतिरुवाच गच्छ देवि न ते दुःखं भविष्यति कदाचन असुरेण वने दृष्टा तत्र सक्ता भविष्यसि तत्र त्वां केशभक्वापि शङ्कचूडस्वरूपधृक जप्स्य देश तदा दैत्यशम्भुहस्थान्मरिष्यति ज्ञात्वा तं देहसन्ध्यागं करिष्यसि हुदाशने पुनर्वृक्षस्वरूपस्था भविष्यसि न संशयः त्वया शब्द महाविष्णुशिलारूपधरो भवेद तेन सार्धं सदा देवी रंस्यसेत्त्वं निरन्तरं पविस्थे भविता विष्णुः सदा सुखप्रदायकः मदीयकृपया देवि सर्वमान्या भविष्यसि देवानां पत्रपुष्पैस्त्वं प्रियात्यन्तं भविष्यसि त्वत्काष्ठसम्भवां मालां धरिष्यन्ति गजे जनाः त्वामन्यकाष्ठवत् सर्वे मानयिष्यन्ति निश्चितं त्रिलोकस्ता जना नैव कुरुभामिनी चिन्तां कुरुभामिनि देवानां त्वं प्रिया भूया विष्णोरत्यन्तभावतः पत्रैः पुष्पैश्च वृन्दे त्वां मानवाः मम वर्ज्या सदा देवि भविष्यसि न संशयः गच्छ त्वं यत्र भावस्थे चिन्तां त्यक्त्वा विशेषतः ॐ तत्सदि श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्म उद्गले महापुराणे पञ्चमे खण्डे तुलसी तुलसीवर्जनकारणं नामैकत्रिंशत् तमोऽध्यायः ओम्